ृष्टिं वस्तुषु न प्रचोदयति सा दृष्टानि न पेक्षते सापेक्षाणि न न तथा गते गृहीतापि सुप्तेव प्रतिबोधितेव विमते वा भी वाप्तेव वा भीतेव वा च प्रत्युत्पन्नफले वे विरहिणी प्रत्या प्रत्याशय प्राणिते चित्रे त्वां चिरनिर्मितम् चित्रे त्वां चिरनिर्मितम् पुनरापि द्रष्टुं न शक्नोति सन्दर्प आकृति शङ्खया कन्दर्प आकृति शङ्खया शिवयात् दर्शमारोगते शाशि भयाति नादर्शमारोगते कन्दर्पाकृति शङ्क रोगदे किं वक्ष्ये विरहे तव प्रमथिता निर्वेगशङ्कासति अङ्गानामपि सौरभैः पापकृतिं जानाति मीनक्षण